श्रीहरे नमः अथ पञ्चविंशोऽध्यायः सौनक उवाच कपिलस्तत्त्वसङ्ख्याता भगवानात्ममायया जातः न ह्यस्य वर्ष्मणः पुंसां वरिं न सर्वयोगिनां विश्रुतौ श्रुतदेवस्य भूरितृप्यन्ति मे सवहा यत्यद्विधत्ते भगवान् स्वच्छन्दात्मात्ममायया तानि मे श्रद्धानस्य कीर्तन्यां द्वैपायनः सखस्त्वेवं मैत्रयो भगवान् तथा प्राहेदं वितुरं प्रेत आन्वीषिक्यां प्रचोदितः मैत्रेय उवाच पितरिप्रस्थितेरण्यं मातुः प्रियचिकीर्षय तस्मिन् बिन्दुसरेवाचेत् भगवान् कपिल किल कामासी स्वसूतं देवहूत्याह धातुः देवहूतिरुवाच निर्विण्णानितरां भूमन असत् इन्द्रियदर्शणाद् येन सम्भाव्यमानेन प्रभन्नान्तं तमः प्रभो तस्य त्वं तमसौन्धस्य तुष्परस्याद्यपारघं सचक्षुर्जन्मनामन्ते य आद्यो भगवान् पुंसाम् ईश्वरो वै भवान् किल लोकस्य तमसान्दस्य चक्षुशूर्यै बोधितः अत मे देवसम्मोहम् अपाक्रष्टुम् त्वमर्हसि यो वग्रहोऽहम् ममेतीत्ये तस्मिन् योजितस्त्वया त्वम् त्वाघाहम् शरणम् शरण्यम् स्वभृत्यसंसारोः कुटारम् जिज्ञासयाहं प्रकृते भूरुषस्य नमामि सद्धर्मविधां वरिष्ठं मैत्रेय उवाच इति स्वमातुर्निरवद्यमीप्सितं निशं यपुंसाम् अपवर्गवर्धनं धियाभिनन्द्यात्मवतां सतां गतेर्भभाशईषत्मितसोभिताननः श्रीभगवानुवाच योग आत्यात्मिकपुंसां मतो निःश्रेयसायमे अत्यन्तो भरतिर्यत्र दुःखस्य च सुखस्य च तमिमं ते प्रवक्ष्यामि यमवोचं पुरानघे ऋषीणां श्रोतुकामानां योगं सर्वाङ्गनैपुणम् चेत कल्वस्य मुक्तये चात्मनो मतं गुणेषु सक्तं बन्धाय रथं वा पुंसि मुक्तये पीतं यथा मनः शोद्ध मथोक्कमसुखं समं तथा पुरुष आत्मानं केवलं प्रकृते परं निरन्तरं स्वयं ज्योतिरणिमानम् अखण्डितं ज्ञानवैराग्ययुक्तेन भक्तियुक्तेन चात्मना परिपश्यत्युदासीनं प्रकृतिं च हतौजसम् न युज्यमानया भक्त्या भगवति अखिलात्मनी सदृशोऽस्ति शिवः पन्था योगिनां ब्रह्मसिद्धये प्रसङ्गमजरं पाशम् आत्मनः कवयो विदुः स एव साधुशो कृतो मोक्षद्वारम् अपावृतं तिधिक्षवकारुणिकां सुकृतः अजातसत्रवः शान्ता साधवः साधुभूषणाः मय्यनन्येन भक्तिं कुर्वन्ति ये दृढा मत्कृते त्यक्तकर्माणस्त्यक्तस्वजनः माधश्रया कथा मृष्टा शृण्वन्ति कथयन्ति च तपन्ति विविधा स्तापा नैतान्मद्गतचेतसः तयेते साधवः सात्त्वी सर्वसङ्गविवर्जिताः सङ्गस्तेष्वतते प्रार्थ्य सङ्गदोषहराहिते सतां प्रसङ्गान्मम वीर्यसंविधो ृत्कर्ण रसाय कथ दोषुना दासु अववर्गवर्त्म श्रद्धारभक्ति अश्यती भक्तुमा जातव विराग ऐद्रिया द्रष्टश्रुतान्मत्र च नानुचिन्तय चित्तस्य यत्तो ग्रहणे योगयुक्तो प्रकृतेर्गुणानां ज्ञानेन वैराग्यविजृम्भितेन योगेन मय्यर्पिता च देवहूतिरुवाच काचित्त्वयुच्चिता भक्ति मम गोचरा यया ते निर्वाणमञ्जसा अन्वाश्वनाहं योयोगो यो गो भगवद्भाणा निर्वाणत्मंस्तव योदितः गीतृषकदिशाङ्घने यतस्तत्त्वावबोतनं तदेतन्मे विजानीहि यथाहं मन्दधीर्हरे सुगं बुद्ध्येयदुर्बोतं योषा भवदनुग्रहात् मैत्रेय विदित्वार्तं कपिलो मादुरितं जातस्नेहो यत्र तन्वाभिजातः तत्वानायं यत्प्रवदन्ति साङ्ख्यं प्रवोच वै भक्तिविधानयोगम् श्रीभगवानुवाच देवाणां गुणलिङ्गानाम् आनुश्रविककर्मणा सत्त्व एवैकमनसो वृत्ते स्वाभाविकी अनिमित्ता भागवती भक्ति सिद्धेर्गरीयसी जरत्या सु याकोशं निगीर्णम् अनलोयत नैकात्मतां मे स्पृहयन्ति केचित् मत्पादसेवाभिरता मदीहाका येन् सभाजयन्ते मम पौरुषाणि पश्यन्ति ते मे रुचिराण्यभः प्रसन्नवक्ता ऋणलोचनानि रूपाणि दिव्यानि वरप्रधानी साकं वाचं स्पृहणीया वदन्ति दयदर्शनीया वयवैरुधार वृथात्मनो हृतप्राणंश्च भक्तिरनिच्छतो मे गदिमण्वीं प्रयुङ्क्ते अतो विभूतिं मम मायाविनस्ता ऐश्वर्यमष्टाङ्गमनप्रवृत्तम् श्रियं भगवतीं वा स्पृहयन्ति भद्रा परस्य मे ते स्नुपदे तु लोके न कर्हि चित् नङ्क्षन्ति नो मे निमिषो लेडिहेदिहे येषामहं प्रिय आत्मासु तस्य सखा गुरुः सुकृतो दैवमिष्टम् इमं लोकं तथैवामुम् आत्मानम्बुभयायिनम् आत्मानमनुये चेहयेराय बसवो गृहाः विसृज्य सर्वान् अन्यान् च मामेवं विश्वतोमुखं भजन्ति अन्यया भक्त्या तान् मृत्योरतिपारये नान्यत्र मद्भगवतः आत्मन सर्वभूतानां भयं तीव्रं निवर्तते मद्भयात्मादिवातोऽयं सूर्यस्तपतिमद्भयात् वर्षदीन्द्रो दहद्यग्नेर्मृत्युश्चरदि मद्भयात् ज्ञानवैराग्ययुक्तेन मद्भयात। भक्तियोगेन योगिनः क्षेमाय पादमूलं मे प्रविशन्त्यकुधो भयम् एतावानेव लोकेऽस्मिन् पुंसामिः श्रेयसोधयः तीव्रेण भक्तियोगेन मनोमय्यर्पितं स्थिरम् इति श्रीमद्भागवते महापुराणे तृतीयस्कन्ते कापिलो यो भाग्याने पञ्चविंशदोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्दा गोविन्दा।